अथ सप्तमः सर्गः सरेश्म जालम् बलवान्ददर्श व्यासक्त वै दूर्य सुवर्णजालम् यथा महत् प्रावृषि मेघजालम् विद्युत्पिनद्धम् स विहङ्गजालम् निवेशनानाम् विविधाश्च शालाः प्रधान मनोहराश्चापि पुनर्विशाला ददर्शवेष्मादृषु चन्द्रशालाः गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्शस्व बलार्जितानि तानि प्रयत्नाभि समाहितानि महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ततो ददर्शोच्छ्रितमेघरूपम् मनोहरम् काञ्चन चारुरूपम् रक्षोऽधिपस्यात्मबलानुरूपम् गृहोत्तमम् ह्यप्रतिरूपम् महीतले स्वर्गमिव प्रकीर्णम् श्रिया नानातरूणाम् कुसुमावकीर्णम् गिरेरिवाग्रम् रजसावकीर्णम् नारी प्रवेकैरिव दीप्यमानम् तिडिद्भिरम्बोधरमर्च्यमानम् हंस प्रवेकैरिव बाह्यमानम् श्रियायुतम् खेषु कृतम् विमानम् यथा नगाग्रम् बहुधातु चित्रम् यथा नभश्च ग्रहचन्द्रचित्रम् ददर्श युक्तीकृत चारु मेघ चित्रम् विमानम् बहुरत्नचित्रम् महीकृता पर्वत राजिपूर्णा शैलाः कृता वृक्ष वितालपूर्णाः वृक्षाः कृताः पुष्पवितालपूर्णाः पुष्पम् कृतम् केसर पत्रपूर्णम् कृतानि वेश्मानि च पाण्डुराणि तथा सु पुष्पाण्यपि पुष्कराणि पुनश्च पद्मानि सकेसराणि वनानि चित्राणि सरोवराणि पुष्पाह्वयम् नाम विराजमानम् रत्र प्रभाविश्च विघूर्णमानम् वेश्मोत्तमानामपि चोच्यमानम् महाकपिस्तत्र महाभिमानम् कृताश्च वैदूर्य मया विहङ्गारूप्य तथा विहङ्गाः चरित्राश्च नाला वसुभिर्भुजङ्गा जात्यानुरूपास्तु रगाः शुभाङ्गाः प्रवाल जाम्बूनद पुष्प पक्षाः सलीलमावर्जित जिह्मपक्षाः कामस्य साक्षादि बभान्ति पक्षाः कृता विहङ्गाः सु मुखास्तु पक्षाः नियुज्यमानाश्च गजास्व हस्ताः स केसराश्चोत्पल पत्र हस्ताः बभूव चक्रता सुहस्ता कृता सु पद्मिनी पद्महस्ता इतीव तद्गृहमभिगम्य शोभनम् स विस्मयो नगमिव चारुकन्दरम् पुनश्च तत् परम सुगन्धि सुन्दरम् हिमात्यये नगमिव चारुकन्दरम् ततः सताम् अदृश्यताम् जनक सुताम् सुपूजिताम् सुदुःखिताम् पतिगुण वेग निर्जिताम् ततस्तदा बहुविध भावितात्मनः कृतात्मनो जनक सुताम् सुवर्त्मनः अपश्यतो भवदति दुःखितम् मनः स चक्षुषः प्रविचरतो महात्मनः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः